अैलप्रागुर्वशीम् प्रत्यति विवशमनः सेवमानश्चिरम् ता गाढम् निर्वीद्य भूयो युवति सुखमिदम् क्षुद्रमेव यति गाय त्वद्भक्तिम् प्राप्य पूर्व सुखतरमचरत्तद्वद्बुद्धूय सङ्गम् बस्तो तम् सङ्क्रिया पुरपते